अथा एकादशोऽध्यायः वैशम्पायन उवाच अथापरो दृश्यतरूपसम्पदा स्त्रीणामलङ्कारधरो बृहत्पुमान् प्राकारवप्रे प्रतिमुच्यकुण्डले दीर्घे च कम्बूपरिहाटके हाटकेशुभे बाहूच दीर्घान् प्रविकीर्यमूर्धजान् महाभुजो वारुणतुल्यविक्रमः गतेन भूमिं प्रति कम्पयंस्तदा विराटमासाद्य सभासमीपतः तम्प्रेक्ष्य राजोपगतं सभातले व्याजात्प्रतिच्छन्नमरिप्रमाथिनम् विराजमानं परमेण वर्चसा सुतं महेन्द्रस्य गजेन्द्रविक्रमम् सर्वानपृच्छच्च सभानुचारिणः कुतोऽयमायाति पुराणमे श्रुतः न च इनमोचुर्विदितम् तदा नरास्सविस्मयम् वाक्यमिदं नृपोऽ सत्त्वोपपन्नः पुरुषोमरोपमश्यामो युवावारणयूथपोपमः आमुच्यकम्बूपरिहाटकेषु भे विमुच्य वेणीमपि नख्यकुण्डले सत्त्वोपपन्नः पुरुषोपमरोपमः श्यामो युवावारणयूथपोपमः आमुच्यकम्बूपरिहाटकेषु भे विमुच्यवेणीमपि न ह्यकुण्डले सो ह्यहं पालयस्व नैवंविधा भवन्ति कथञ्चनेति मे मनः पठान्तरे तु वेणीं प्रकुर्यां रुचिरे च कुण्डले तथा स्रजप्रावरणानि संहरे स्नानञ्चरेयं विमृजे च दर्पणम् विशेषकेष्वेव च कौशलम् मम क्लीबेषु बालेषु जनेषु नर्तने शिक्षाप्रदानेषु च योग्यता मम करोमि वेणीषु च पुष्पूरणं न मे स्त्रियकर्मणि कौशलाधिकाः तमब्रवीत्प्रांशुमुदीक्षि विस्मितो विराजोपसृतं नार्हस्तु वेषोऽयमनूर्जितस्ते नापुंस्त्वमर्हो नरदेवसिंह विभाति े गनैरिव धनुर्हि मन्ये तव शोभयेद्भुजौ पीनावतिमात्र गायामि गाया नृत्यामया भद्रोस्मृत कुशलो गीतेराय प्रदशस्व स्वयं भवामी ममे न कि प्रकर्तशोकवर्धन बृहन्नलाम नरदे विदि सुत वितृमातवर्जिता ददामि ते हन्त ब्रहन्नले बृहन्नले सुताञ्चमे नर्तय याश्च तादृशीः इदन्तु ते कर्म समम् न ते मतम् समुद्रनेमिम् त्वमर्हसि वैशम्पायन उवाच बृहन्नलाम् तामभिवीक्ष्य मत्स्यराट् कलासु नृत्येषु तथैव वादिते संमन्त्र राजा विविधैः स्वमन्त्रिभिः परीक्ष्य अपुंस्त्वमप्यस्य निशम्य च स्थिरं ततः कुमारीपुरमुत्ससर्जतम् सशिक्षयामास च गीतवादितम् सुतां विराटस्य प्रभुः सखीश्च तस्या परिचारकास्तथा प्रियश्च तासां सबूव पाण्डवः तथा स सत्रेण तथा च तम् तत्र न जज्ञिरे जना बहिश्चरा व्याप्यत चान्तरे चराः